संहितापाठम् ऊरुभ्यान्ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् यक्ष्मम् श्रोणिभ्याम् भासदाद्भंसो विवृहामि ते ऊरुभ्यान्ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् यक्ष्मं श्रोणिभ्याम् भासदाद्भंसो विवृहामिते ऊरुभ्यान्ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् यक्ष्मं श्रोणिभ्याम् भासदाद्भंससो विवृहामिते